अथवा कुशलाः केचिदुपायनिपुणा नराः इतरेतरतः पार्थान् भेदयन्त्वनुरागतः व्युत्थापयन्तु वा कृष्णाम् बहुत्वात् अथवा पाण्डवांस्तस्याम् भेदयन्तु ततश्च भीमसेनस्य वा मृत्युर्विधीयताम् छन्नैः सहि तेषाम् बलाधिकः तमाश्रित्य कौन्तेयः पुरा चास्मान्न मन्यते सहि शूरश्च तेषाम् चैव परायणम् तस्मिंस्त्वभिहते राजन् हतोत्साहाहतौ जसः यतिष्यन्ते न राज्याय स व्यपाश्रयः अजेयो ह्यर्दुनः सङ्ख्ये पृष्ठगोपे वृकोदरे तमृते फाल्गुनो युद्धे राधेयस्य न